युञ्जानः प्रथमम् मनस्तत्पागसमिताधिजः भाग्यञ्ज्योतिर्निराय प्रथयुजा अध्याभरत् युक्ता मनसा देवान् सुवर्गतोधिजादिवम् बृहज्योतिः दे करे शतस्सपिता प्रसुवादितान् युक्तेन मनसा वयम् देवस्य समितस्सवे सुवर्गे जायशक्त्यये युञ्जते मन उदयुञ्जते धिजो विप्रा विप्रस्य बृहतो विपश्चितः विहोत्रा तथैवस्य स विदुः परिष्टुतिः युजे वा ब्रह्मपूर्वजम् नमाभिर्विश्वसूराः शृण्वन्ति विश्वे अमृतस्य पुत्रा आये धामानि दिव्याणि प्रयाणमन्मन्यवादेवस्य महिमानमर्चतः िवानिपि ममे सजेतसौरजागुंसि देवः सवितामहित्मना देवसवितः प्रसव जज्ञम् रसभ यज्ञपतिम् भगागतिम् योगम् सर्वः केतवोः केतन्नः पुनादुवाचस्व निर्वाचमध्यस्वदादिनः देव समितर्जज्ञम् रसभदेवादिभगुं सखिमिदगुम् सभाजितम् धनजिदगुम् सुवर्जितम् तो समर्थलकालत्रणरथन्तरम् वर्तने देवस्य त्वा समितुः प्रसवे बाहुभ्याम् हस्ता छन्दसाङ्गिरस्वदभिरसिनारिरसिदग्निम्पुरेष्टमङ्गिरस्वदाफलप्रेष्फेन त्वा छन्दसा ददेङ्गिरस्वद्मभ्रिरसिनारिरसि त्वया भजगं सिंसमखितुम्बुरेश्यञ्जागतेन त्वा छन्दसा देङ्गिरस्वद्धस्ताथा बिभ्रदभ्रुगुम्भिरङ्गी जस्रमिदग्नि घात्वेन आभरा नष्टुभेणसा देङ्गिरस्मत् इमामग्रभण्डसनामितः सपूर्व आयुषि वितसेषु गवजा तया देवा सुतमामभोपरदतः ससामम् सरमारमन्ति ततो वा जम्नार्जवरिष्ठामनुसंवतम् ममन्तरिक्षेनाभिः पृथिव्याम धृयोनिः जाथा गुम् वासभै युवमस्मिन् जामे वृषण्वसु अग्निम् फलम् तमस्मयुम् योगे योगे तवस्तरम् वाजे वाजे हवामहे सखाद इन्द्रमोदये प्रथोर्वन्ने ह्यवक्रामन्नशस्तेरुपत्यान्मयो भूरेहि पूर्वम् तनि क्षमन् विः स्वस्तिकविजोजरभजानि कुण्वन्तुम् पुरेश्च मङ्गिरस्मदच्छेम् पुरेश्चिरस्मदच्छे मोग्निम् पुरेश्विरस्मत्फलेश्च मोग्निम् पुरेश्च मङ्गिरस्मत्फलामः प्रथमो जातवेदाः स्य पुरुत्रा च रश्मेण भद्या वा पृथिवी आतता न आगत्य वाज्यध्वनः सर्वामृथोऽपि ननुते आज्ञम् सधस्थे महति चक्षुषा निचिकेशते आक्रम्य वाजिम् पृथिवेमग्निमिच्छरुचा त्वम् धूम्यामृद्वाजनो ब्रोहयतः खनामतम् वयम् ज्वौस्ते पृष्ठम् पृथिवे सभस्थमात्मान्तरिक्षगम् समुद्रस्ते योभिः मिक्षाय चक्षुषात्ममभितिष्ठभृतम् नितः उत्क्राममहते सौभगायास्मादास्थानाः द्रविणोलावाच अस्याः पुनरक्रमे द्रविणोलावाच्यर्वाकः सलोकगुं क्ष्माय प्रजाभ्यः सास्थानादुज्जिह तामोषजश्रु विप्लाः जघम् यज्ञम् मनसा धलेन प्रदेक्ष्यन्तम् भुवनानि विश्वाः पृथुन्दिरश्चावयसा बृहन्तम् यजष्ठमन्न रक्षसा मनसा तज्जुषस्व मलयश्रेसृहजयद्वर्णो अग्निर्नाभिकृषे तनुवाजलिषामः कविरग्निलहान्यक्रमेत्नानि दासुषे परित्वाग्ने पुरम् वयम् विप्लगम् सहस्य धीमहि त्रिषद्वर्णम् दिवे दिवे भेत्तारम्भम् गुरावतः त्वमग्नेभ्यस्तमाशुशुक्ष्णिभ्यस्तमश्मनस्पति त्वमम् वरेःभ्यस्तमोचतेभ्यस्त्वम् नृणाम् जायसे शुचिः देवस्य द्वासवितप्रसवेः श्रृणाम् बाहुभ्याम् गोष्णास्ताभ्याम् पृथिव्यासधस्थेग्निम् प्रवेश्यङ्गिरस्पत्खनामि स्योजुष्मन्तन्वाग्ने सुप्रदेकमजस्रेणभानुनादेध्यानम् शिवम् प्रजाभ्योऽगुम् सन्तम् पृथिर्विजानिष्ठमसि सप्रथापरावृष्ठम् वर्धमानम् महा आचपुष्करम् दिवो भात्रजावलिना प्रथस्व शर्मजस्थो वर्मजस्थो अच्छिद्रे बहुले उभे यतस्वदेशम् वसाथाम् भक्तमद्विम् पुलेष्यम् सादुम् सुवर्विदा समेचे पुरसात्मनाः अर्निभरिष्यन्ते ज्योतिष्मन्तमज स्मित पुरेश विश्वफलाः अथर्वा समो निरमन्थदग्ने त्वामग्ने पुष्कदा दध्यसर्वा था निरमन्थता मूर्ध्वा विश्वस्य बाधतः अथर्वणः प्रत्यहणम् पुरन्दरम् तमग्पापाच मृढा समेधे तस्य हन्त धनञ्जनकम् रणे रणे शीलः दस्वपुलोके चित्त्वाम् साजनादज्ञकम् सुकृतस्य हविषाय चाश्रङ्गे बृहद्यः विदानस्ते दिवागुम् असदत् सुदक्षः अलब्ध्रद प्रमजर्वसिष्ठः सहस्रम् भरस्विचिजिह्मो अग्निः सेतस्व महागम् अशोचस्वदे भवेतमः ममग्ने अरुषम् यजेऽध्य च प्रशस्तदृशतम् जनिष्वाहिजेन्मो अग्रे अह्नागुम् हितो हितेष्वरुषो सन्देवायुर्मादृश्वा तथातो हृदयद्वेष्टम् देवानार्यति प्राणचेन तस्मै च दे विवशरस्तु तुभ्यम् चातो ज्योतिषा सह शर्मबलो धमासदस्तु वः वासो अग्ने विश्वरो प्रणुंसम् यजस्व विभावसो बृहस्वधरानो कृपा निराग्ने जाहि सुस्तिभिः वोर्ध्वपूषणबोधवेतिष्ठा देवो न सविता वोर्ध्ववाज सनितायदन्दिर्वाखग्धर्विह्वयामहे स जादो गर्भो अशिरोदस्योरग्ने चादुर्विभृतमोषधेषु नेत्रस्य सः परितमायस्य प्रमादृभ्यो अधिकनिक्रतभ्यो सर्वभवमेव्यङ्ग आशुर्भवमाजल्व्यव सुषदस्तमग्ने पुरेढवाहनः शिवो भव प्रेतवादे कनिक्रधन्नानधद्रासपः परन्नग्निम् पुलेष्यम् मापाद्यायुषः पुरा रासपोलाम् कनिक्रधत्सुयुक्तो मृषणा रथे समामग्निम् पुलेष्यमाशुर्दोतो वहाधितः ऋनिम् मृषणम् भरन्नपाम् गर्भगम् समुद्रियम् आग्न आयाहि भीतजहृतगम् सत्यम् पोषधयः प्रतिगृह्णेताग्निमेतगम् शिवमायम् तमभ्यत्र युष्मान् यस्वन् विश्वातमदेषेतम् न अपजम् अजगृह्णत् ोषधयः प्रतिमालब्धमेनम् पुष्पावजेशु विफलाः अयम् भोगभृद्विजः रत्नयम् सहस्थमासत् शर्मण वृहतः शर्मणि स्यामग्नेरहम् सवस्य प्रणीतौ आपोहिष्ठामजाभवस्तानभूर्जयधातना महेरणा यजक्षसे योमस्य वदमालतस्तस्य भाजय देहनः उषदेव मातरः हस्मा अरङ्गमामवायस्य क्षया यजन्मथा पापो जनयथा जनः जन जन निगुधज्य सुजातम् जातवेदसमज्ञम् वैः विश्वा नरम् विभुम् भयष्मायद्वासगम् सृजामि प्रजाभ्यः विश्वे त्वा देवा वैः विश्वा नराः सगम् सकम् सृष्टाम् वसुभे रुद्रेर्ध्वेन कर्मण्याम् मृदम् हस्ताभ्याम् ऋद्वे धृत्वा सिने बाले करो दुता सिने बाले दधातु हस्तयोः शक्त्या बाहुभ्या मदितर्ध्वजा मातापुन्द्रे यथापस्थेसार्यम् विभक्मगर्भ मखस्य शिरोसि से यज्ञस्य पदेस्थः समस्त्वाग्वन्दुगा यत्र न छन्दसाङ्गि ह्रस्वप्रच्छद्रास्वागण्ष्टुभयेन छन्दसाङ्गि ह्रस्वजं जमस्यादित्या स्वाकम्भं तु जागते न छन्दसाङ्गे ह्रस्वद्यौरसि विश्वे हत्वा स्ते बिलम् गृह्णादुपाङ्गसाङ्गिरस्पत् कर्द्वादसा महे मुखाम् मृण्मदेमग्नदे ताम् पुत्रघः सम्प्रायच्छदजि च श्रपजानिति वसव स्वाथोपजन्दुगागत्र न छन्दसाङ्गिरस्मद्भुद्रा स्वाथोपजन्द्रेष्टभ न छन्दसाङ्गिरस्मदादित्या स्वाथोपयं दुदागत न छन्दसाङ्गिरस्मद्विश्ववा दे पृथिव्या सधश्चे हङ्गिरस्वत् खन त्वटदेवानाहन्ता पत्नीः देवेर्विश्वदेह्यावदे पृथिव्यासधश्चैहङ्गिरस्वदोखे झणाः स्वा देवेर्विश्वदेह ल्यावदे पृथिव्या सधश्चैहङ्गिरस्वदीन्द्रता मुखे ग्या स्वादेवेर्विश्वदेह्यावदे पृथिव्यासधश्चैङ्गिरस्वच्छमयं दुःखे खलु त्वा देवेर्विश्वरेः व्यामने पृथिव्याः सधस्थेपचम्खे नेत्रैताम्खाम् पचयषामाभि अतीमाम् महिलादिवम् मित्रो बभूव सप्रसाः श्रवसा पृथिवीम् नेत्रस्य दर्शने धृतश्रवो एवस्वासहितोत्मपदसुपाणिस्वम् गुरिः सुबाहृतसज्ञाः अपद्यमानापि सर्यासादिश आपण उत्तिष्ठबृहदे भवतिष्ठद्वाम् स्ताच्छन्दु गायत्रेण न छन्दसाङ्गिरस्पद्वद्रास्ताच्छन्दम् सन्धिविजेन देनिरोचनेन पृथिव्याः सन्ध्ये स्वाहा सौभगाय माचरिषदपसत्तादे अग्ने ब्रह्माणस्ते यशसत् सन्धमान्ये त्वामग्ने वृणते ब्राह्मणाजिमे शिवो अग्ने संवरणे भवानः समात् महाना अभिमाचिच्चस्वे गजे जागृह्य प्रयुच्छन् हि हैवाग्ने अभिधारया रजम् मा त्वा निक्रम्पोर्वचितानि कारिणः क्षत्रमग्ने सुयममस्तु तुभ्यमुपसप्तावर्धताम् ते अनिष्कृतः क्षत्रेणाग्ने स्वायुस्सगं सजातानाज्ञामोदिह अधिसृ स्वाक्यग् सह स्वाधास्मब्धकम् सह वेरागुम् जयुम् दाराः धनादृश्यो जातवेद अनिष्कृतो विराडग्ने क्षत्रेह ्रमञ्चन्मानुषेर्भिज शिवाभिरद्यनो बृहस्पते सविदर्गोधलेन हते सौभगाय विश्वमदम् तु देवाः स बृहस्पतेषस्तेन मुञ्चिनामद्यमस्माद्देवानामग्नेऽभिरचीभिः उद्वयम् दमहस्परिपश्यन्तो ज्योतिरुत्तरम् देवत्रासोर्जमगन्मज्योतिरुत्तमम् अस्त समिधार्धा शुक्राशोचेगश्यग्नेः जुमक्तमा सुकृतेकस्य सूनोः पादसुरो विश्ववेदा देवो देवेषु देवः निमग्धातेन ण्णक्षसे प्रेणानो नराशकंसो अग्ने सुकृस्य पिता विश्ववारः आच्छादमे दिशमसा कृते अग्निग्रस्पृचो अध्वरेषु प्रयत्सुक्षदस्य महिमानमग्ने सी मन्द्रासु प्रयसः वसुश्चे तिष्ठातमश्च देवे रङ्गस्य विश्वेः भ्रता दजन्ते अग्ने गुरुव्यचोभाम् नापद्यमानाः ते अस्य लोषणे दिव्येन यो नापुशासानक्ताः इमै यज्ञमवदामध्वरम् नः देव्याहोदारा वोर्ध्वरम्भिगृणीतम् कृण स्पृष्टिम् तिस्वदेवे महिलेन सदन्विडासरस्वदेभारती ेव मद्भुनम् पुरुक्षद्भुवीरम् राजस्वोऽनाभिमस्मेना देवेषु अग्निरहवितकोषमितासूदयाति अग्ने स्वाहातयुन्द्राजहव्यम् विश्वे देवाः विरतम् सदालपृथिवेञ्जामदे माम् कस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो महिद्मैकविद्रा जगतो बभूव अश्च क्षिपदश्चतुष्पदः कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महिद्वायस्त समुद्रगौ रचया साभाेमानिस्तबाहो कस्मै देवाय हविषामिधे यम् ग्रन्थसे अवसादस्तफाने अर्भ्येक्षेताम् मनसा रेतमाने रमुदितो ये दि कस्मै देवाय हविषामिधेम येन च दृढे सुभस्तेन नाकः यो अन्तरिक्षे रजसाभिमानः कस्मै देवायः विचारिम आपो हयम् हरे शमायम् दक्षम् दधाना जनयम् दे नग्निम् ैव आसेत् कस्मै दैवायः विशाविषयमा आकोतिमग्निं प्रतिजग् स्वाहा मनोमेधामग्निं प्रयुज स्वाहा चित्तं विज्ञातमग्निं प्रयुज स्वाहा वाच वितृग्निं प्रयुज स्वाहा प्रजापत स्वाहाग्नि स्वा न स्वाहा विश्वे देवस्तनेतुं भक्तो वृणेतसख्यं विश्वे राजयशुद्धृणेत पुष्यसे स्वाहा मा सु मासुषोदृगं श्च देवानामिदमस्तु हरिजमलिष्टा त्वमुलिः यज्ञे अस्मिन् नेत्रहिताम् मुखान्तपैषा माम् भेदि एताम् देपलिगदान्यै ब्रवन्नः सर्गदा सज रत्नाहो दा वरेण्यः सहस्रपुत्रोऽद्भुतः परस्याधिसम्वतो वरागुम् अभ्यातरा यद्वाहमस्मितागुम् अव परमस्याः परावतो लोहिरश्वगहि पुरेश्यः पुरप्रयोग्ने त्वम् तरामृतः शील त्वम् मातुरस्या उपस्थे मैनामच्युषामातपसा दुशो शुचोन्दरस्यागम् शुक्रज्योतिर्विभाहि अन्तरग्ने रुचात्मोखादि सदने स्वे तस्यास्त्वम् हरसातपञ्चातवेदः शिवो भव शिवो भूत्वा मह्यमग्नेऽथोऽसेदशिवस्त्वम् शिवा हृद्वादिशः सर्वा ततस्तु तु भ्रमिघृतम् दज्जुषस्व निष्ठ्य यदत्युपजिह्वि कायध्वं रोहति सपदि सर्वम् तदस्तु ते घृतम् दज्जुषस्व जष्ठ्य नाभा पृथिव्याः समिधानमग्निगौ राजस्पोषाय बृहदे हवामहे गिरम् मदम् बृहदुग्धत्रम् चेतायमग्निम् मृतनासु सासहिम् या सेनाभेद्वरे रा्याधिनेरुगणा उता ये स्तेनाय चतस्करास्ताकृस्ते लग्नेऽपि तथा यास्ये दग्भ्याम् मलिम् रोञ्जम्भ्यैस्तस्करागम् उत हनोःभ्या विस्तेणाम् भगवस्ताविस्त्रम् खाद सुखादितान् हे जनेषु मलिम् लवस्त्रेना सस्तस्करावणेः यो अस्मभ्यमराधीराद्यश्च नान्वेखते जनः निन्दाद्य अस्मान् दिप्सा च सर्वन्तम् अस्म सा कुरु सगुंसितम् ब्रह्म सगंसितम् नीर्यम् बलम् सगुंसितम् क्षत्रम् जिष्णु यस्याहमस्मि पुरोहितः पुरेषाम् बाहु अरिणमुद्वचलम् क्षणामि ब्रह्मणा मित्राणुम् अहम् निशानो रुक्मौ दुर्मणः अग्निरमृतो अभवद्वयोभिर्निदेन यत्सुरेताः निष्पारोण्यप्रतिमम् चलैकविः प्रासावेद्भद्रम् निपदे चतुष्पदे विनाकमघ्यत्स विवरेण्यो नु प्रजाणमुषसो विराजति नग्तो शासा समनसा विलोपेधा पले ते शिशुमेकगुम् समीचीमा रुक्मो अन्तरविभाति देवा अग्निम् धालयम् प्रविनोदाः सुपर्मासि गरुत्मा प्रवृत्ते शियोगायत्रम् चक्षस्तो मत्मा सामते तनोर्वामदेव्यम् बृहद्रसम् दरे वक्षौ यज्ञायज्ञानिस्त्यङ्गानि सुवर्मासि गरुत्मान् दिवम् गच्छ सुवः पदा अग्ने यज्ञमध्वरम् विश्वतः परिभूरसि गच्छसि स्वमयास्ते मयो भव ऊदयः सन्ति दासुषे ताभिर्मो विता भवतुर्वम् भर्गो देवस्य धीमहि धियो धी यो नः प्रचोदयात् अशक्ते यच्च क्रमादये देनैर्दक्षैः प्रभूतेयोरुषत्वताः देवेषु च सवितर्मानुषेषु च त्वन्नो अत्र सुमता दनागसः सोदयित्री सुमृतानाम् चेतम् ते सुमतीनाम् दधे सरस्वती पावीरवी कन्याचित्राजुः सरस्वती वीरपत्नीतिजम् धात्लक्षिद्रगौ शरणगु सजोषादुराधरिषम् गृणते शङ्जगम् सत् पूषागा अन्वे तु नः पूषारक्षत्वर्वतः पूषावाचकम् स नोमः शुक्रन्ते अन्यद्य जतन्ते अन्यद्विषु लोपे अहमेद्यौरिवासि विश्वाहि माया अपशि स्वधावो भद्रा विष्मरृषणम् मदत्सुतम्भो न सीतप्रियेणते दुराजमारुदायस्वसे भरध्वम् ये सहांसि सहसा सहम् ते रेचते अग्ने पृथिवी मघेभ्यः वा विश्वे देवाः यलवा नः पृथिवी इमलम् सिद्धमद्यपि विस्पृशम् यज्ञम् देवेषु प्रभोर्वेरोध्योमेन बोधय समिधानो अमर्त्यम् अहं यानमर्त्रभूतस्य नो हिनः अग्न्यर्ध्वजा समृम्बति शुना भवन्तु राजेवादे भो